हा त्वं श्रं हि वषड्गा नित्या या नोचार्या विशेषतः त्वमेव सावित्री त्वं स्यन्ते च सर्वदा विश्रेष्ठिरुपातम् चितिरूपा च पालने तथा संहृतरूपन्ते जगतो ्या महामाया महामेधा महास्मृति महामोहा च भवति महादेवी महासुरे प्रकृतेस्तम्भि त्वमीश्वरे त्वम् इष्टं बोधिबोधलक्षणा लज्जापोष्ठे तथातुष्टे त्वं शान्ते च प्रिणी तथा शङ्खिनी चापिणी बाण भूषुण्डे परिधायुधा सौम्या सौम्यतराशेष सौम्ये सतिसुन्दरी परा पराणा परमां त्वमेव परमेश्वरी यञ्चिद्वचेद्वस्थो सदसद्वाखिलात्मिके तस्य सर्वस्य या शक्ति सा त्वं किं सूयसे वया यया त्वया जगत्स्रष्टा जगत्पात्यति यो जग निद्रा शरीरग्रहणम् अहमीशानये च पारितास्ते यतोतस्तां कस्तोतं शक्तिमान् भवे सातनिथं प्रभावै सुरौ मधुके तव प्रबोधं च जगस्वामी नियतामद्युतो